महावाक्यरत्नाबली द्वादशम् प्रकरणम् अथ सार्धान्तिकपुंलिङ्गस्वरूपवाक्यानि त्रिंशत् स एषो कलोऽमृतः नान्तःप्रज्ञं न बहिःप्रज्ञं न भयतः प्रज्ञं न प्रज्ञानघनम् न प्रज्ञम् न प्रज्ञम् अदृश्यम् अव्यवहार्यम् अग्राह्यम् अलक्षणम् अचिन्त्यम् अव्यपदेश्यम् मैकात्मप्रत्ययसारम् प्रपञ्चोपशमम् शान्तम् शिवम् अद्वैतम् चतुर्थम् मन्यन्ते स आत्मा स विज्ञेयः अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवद्वैतः यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा स एष नेति नेत्यात्मा गृह्यो न हि गृह्यते अशीर्यो न हि शीर्यते असङ्गो न हि सज्जतेऽसितो न व्यथते न रिष्यति रसघन एवं वारेयम् आत्मानन्तरोऽबाह्यस्कृत्स्नः प्रज्ञानघन एव तस्मान्मनो विलीने मनसि गते सङ्कल्पविकल्पे दग्धे पुण्यपापे सदाशिवः ॐ शक्त्यात्मकः सर्वत्रावस्थितिः स्वयम् ज्योतिःशुद्धो नित्यो निरञ्जनः शान्ततमः प्रकाशयति एष शुद्धः पूतः शून्यः अप्राणो नैषात्मानन्दो अक्षयः स्थिरः शाश्वतो ते अजः स्वतन्त्रस्वयमहिं नितिष्ठति चक्षुषो द्रष्टा श्रोत्रस्य द्रष्टा मनसो द्रष्टा वाचो द्रष्टा बुद्धिर्द्रष्टा प्राणस्य द्रष्टा तमसो द्रष्टा सर्वस्य द्रष्टा ततः अन्यो विलक्षणः सद्घनोऽयं चिद्घन आनन्दघन एवैकरसोऽव्यवहार्यः सन्मात्रो नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरञ्जनो विभुरद्वन्ना द्वयानन्दः परः प्रत्यगैकरसः अदृष्टो अव्यवहार्योऽप्यल्पो नाल्पः साक्ष्यविशेषः सर्वज्ञोऽनन्तोऽभिन्नोऽद्वयो विदिताविदितात्परः अद्वैतपरमानन्दो विभुर्नित्यो निष्कलङ्को निर्विकल्पो निरञ्जनो निराख्यातः शुद्धो देव एको नारायणो न ना द्वितीयोऽस्ति कश्चित् अचक्षुर्विश्वतश्चक्षुर्कर्णो विश्वतःकर्ण अपादो विश्वतःपाद अपाणिर्विश्वतः पाणिरहम् अशिरा विश्वतःशिरा विद्यामात्रैकसंश्रयो विद्यारूपः दिव्यो यमूर्तः पुरुषः यमूर्त पुष्ह शबायाभ्यजाणो यमनाशुभ्रो अक्षरापरत अद्वैतसभा देवस्तु देवस्तुर्यो स्मृता अपूर्वोऽन्तरोऽबाह्यो न परः प्रणवोऽव्ययः अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः कर्माध्यक्षः सर्वभूतादिवासः साक्षी चेता केवलो निर्गुणश्च सर्वसङ्कल्परहितः सर्वनादमयः शिवः सर्ववर्जितचिन्मात्रस्सर्वानन्दमयः परः सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः आत्मानात्मविवेकादिभेदाभेदविवर्जितः महावाक्यार्थतो दूरो ब्रह्मास्मेत्यतिदूरतः तच्छब्दवर्जस्त्वंशब्दहेनो वाक्यार्थवर्जितः क्षराक्षरविहेनो यो नादान्तर्ज्योतिरेव सः अखण्डैकरसो वा आनन्दोऽस्मेति वर्जितः दृश्यदर्शननिर्मुक्तः केवलामलरूपमान् नित्योदितो निराभासो द्रष्टा साक्षीचिदात्मकः स एव विदितादन्यस्तथैवा विविदात् अपि इति लिङ्गस्वरूपवाक्यानि त्रिंशत् द्वादशम् प्रकरणम् समाप्तम्